पकं ब्रह्मवेदस्वरूपं निजं निर्गुणं निर्विकल्पं निरेहं चिदाकाशमाकाशवासं भजने कालकालं कृपालं गुणागार संसार पारं न तुषारादृशकाशगौ मनोभूतकोटिप्रभासि शरीरं स्फुरन् मौलिकल्लोलिनी चरुगङ्गा लसद्भाले दुखन् नीलकंठम दयालमीश चर्माबरम मूढ़बालम शंकरं शर्वनाथम भज परेशम् अखण्डम् अजं भानुकोटिप्रकाशं त्रयः शूलनिर्मूलनं शूलपाणिं भजेहौ भवानि पतिं कल्याण कल कल्पातकारी सदा सज्जनानन्द दुरी चिनन्द सन् भजन्ति ह परेवान सुखं परेवानराणां न ताभत्सुखं शान्तिसन्तापनाशं प्रसीदप्रभो सर्वभूताधिवासम् जपं नैव पूजा नतोऽहं सदा सर्वदर्शं भुत्वं चरा जन्मदुःखौघ तातप्यमानं प्रभो पाहि आपन्न मामिशम्